अथ तैत्तिरीयारण्यके षष्ठः प्रश्नः प्रारम्भः ओन्ता मेजुषा प्रजामायुर्धनम् च ॐ शान्तिः अरेरणपभ्यन्थामनपस्तुशानम् वैवस्वतगो सङ्गमनञ्जनानान्य हविषास्य इदन्ता वस्त्रम् प्रथमम् वा दक्षिणान्यथा ते दत्तम् बहुधा विबन्धुषो इमो विलग्निदेवन्यधाय वोढवे गाभ्यां यमस्य सा जनगो सुकृताञ्चापि गच्छतात् भूषा द्वेदस्या वेदप्रवित्ता नष्टपुषभुवनस्य गोपाः सद्वैतेभ्यः परिददात् पितृभ्योदेवेभ्यः यत्रासते श्रुतो यत्त्वते यजस्तत्रत्वा देवः सिता दधातो भुवनस्य पद इदगम् हविः स्वाहा पुरुषस्य तया वर्यपेदघानि मृज्महे यथा न अत्र नापरः पुरा जलस आ यदि पुरुषस्य तया वर्जिते प्राणवधिस्रम् शरीरेण महीमहिस्तधयेः पितोऽनुपप्रजयात्मानि हावः येऽहम् देवी सतीपितुलोकम् यदैषी विश्ववारासम् नो लोकोपयसाव्याववृत्स्वा यन्नारीपतिलोकम् पुराणानिपद्यतप्रेतम् विश्वम् पुराणमनुपालयन्ती तस्यै प्रजान्द्रविणञ्जे प्रियेष्यभिजीव लोकमितासुमेतमुपदेशयैः हस्तग्राभस्य दिलिशोऽस्त्वमेतत्प्रत्यद्यनित्वमभिसम्बभूव सुवर्णमोहस्तादाददानामृतस्य श्रीब्रह्मणेतेजसैबलाय अत्रैव त्वमिहवयगो सुषे वा विश्वास्पृधा अभिमादीजयेम धनुर्हस्तादाददानामृतस्य श्रीक्षत्रायोजबलाय अत्रैव त्वमिहवयगो सुषे वा विश्वास्पृधा अभिमादीजयेम मणिमो हस्तादाददानामृतस्य श्रीविषयुश्चैबलाय अत्रैव त्वमिहवयु सुषे वा विश्वास्पृद अभिमादीजयेम देवा नेत्वा नुष्वमेतसा चेत्वा श्रीयम् यदा जात यदा शतंगेदे दुभ्यूक्षण अवोवागछ्रेष प्रतिम सात यास्ते शिवा यादवेदस्ताभिर्वहेमकं सुकृतान्यत्र लोकाः अयम् वैयित्वमस्मादधित्वमेतदयमेश्वानरः पुत्रपित्रेण गगर्जादवेदो हेमकं सुकृतान्यत्र लोकाः एतस्य मथोक्तारस्तेभ्य स्वाहा एतस्य मथो रक्षितारस्तेभ्यः स्वाहा एतस्य मतोऽभिरक्षितारस्ते स्वाहाख्यात्रे स्वाहा वाख्यात्रे स्वाहाभिलालपदे स्वाहालवते स्वाहाग्नये कर्मकृते स्वाहाय नीमस्तस्मै स्वाहाभरस्य स्विदानामोद्धानन् वादपदे त्वाय ीमखायतपुरुष्यः अस्मात्त्वमधिजातोऽसि वैश्वानराय सुवर्गाय लोकाय स्वाहावृषभोरोरवीति दिवश्चिदम् दातुपमा मुदानटपामुपस्थेमहिषोपबद्धा इदम् तदेकम् परभूत एकम् द्वितीये रज्ज्योतिषासंविशस्व संवेशनस्वनुवैचारुरेधिप्रियो देवानाम् परमे सधस्थे नाके सुवर्णमुपयत्वदन्त हृदा वेनत्वा हिरण्यवक्षम् वरुणस्य दोतं यमस्य यो नो शकुलम् भुरण्यम् अतिद्रवसारमे योऽश्वानोचित रक्षो शवनो साधनापथा अथापितरांसुदत्रागुणीयमे नये समादम् वदन्ति योतेश्वानो यमरक्षितारोचितरक्षोक्षी नु चक्षसा भ्यागोराजम् परिदेह्येन ग्रस्वस्तिजास्मानमीवन्द्येहि वृणसा वसुदर्वालुम् बलो यमस्य दूतौ च रतोशाकुम् अनु तावस्मभ्यं दृशे सूर्यायमुनर्दत्तावसुमद्येह भद्रम् सोभयेकेभ्यवदे घृतमेक उपासते तेभ्यो मधुप्रधावतागश्चि देवापि गच्छता येभ्यन्ते प्रथमे शुशूरा सो एतनु त्विजः क्षिणास्ता कश्चिदेवापि गच्छता तपसायेनादृश्यास्तमसाये दोर्गताः चक्ररे मस्ता कश्चिदेवापि गच्छतात् अस्मन्वदीरेवगौरभद्रमुत्तिष्ठतः प्रदरदासखायः तत्रायः सन्मशे वा शिवानुवाजानुत्तरेम यत्मयि देवस्य सवितः पवित्रगो सहस्रधारम्वितमन्तरिक्षे केनापुनादिन्द्रमनाहम् मा गो सर्वतम् मुनामि या राष्ट्रात् अन्नादभयम् शाखा अभिमृतानुपदिमिच्छमानाः सर्वाः पवनेन भूतास्मान् रय्यावर्त्यशासगो सृजाता एव वक्तवेकंशमयामसि क्षीरेण चोदकेन चन्दुः पादुकावली ोक्या सुसङ्गमये मद्गस्वग्निकोशमया सन्देहन्वन्याः पश्यमुदेशन्त्वनोक्याः सन्देशमुद्र्या पश्यमुदेशन्त्वपर्ष्याः सन्देशे शमुदेशम् सूप्याः सन्देहाष्वावशीयराम् पितृभ्योऽयस्ताहुतस्करति स्वसाभिः आयुर्वसा नोपया तु शेषकमुसङ्गच्छरान् तनुवाजातवेदः यत्र भूमि तत्र गच्छत कृत्वा देवस्य पिता स्तनुभोसंभरस्वमेहगात्रीरम् यत्र गच्छ तत्रत्वा देवस्वधातु इदम् एकम् परभूत एकम् तृतीये न ज्योतिषासंविशस्व संवेशि प्रियो देवानाम् परमे सधश्चेत्तेष्व परमे व्योमन् यम्यासंविधानात्तमन्नाकमधिरो हेमम् अस्मन्वदीरेव देवी द्वयीवस्य पवित्र राष्ट्रात्पन्नादु त्रयन्त्वरिहातापनादोन्वदधिजायतानराय स्वर्गाय लोकाय स्वाहा आयातु देवस्वमनाभिरोधिभिर्यमोहवेहप्रियताभिरक्ता आवीयतागोलुप्रियदेवश्वय जात्यै मो शत्रुहत्यै यमेैव यतमाने यदैतम् प्रवाहम्भरन्मानुषादे भयन्तः स्वकम् विदाने स्मा सस्थे भवतमिन्दवेन सुहुतामोहयज्ञो गच्छत्योहरङ्कृतः यमाय कृतवद् प्रजतिष्ठतः स्म देवेष्मायवतीभ्रमायिप्रजीवसे पार्थिवस्यैकी यमङ्गोगा यो राजानः यमङ्गायभङ्गश्रो यो राजानपरोध्यः राजा ये, ये नद्यो धन्वान् येनोदृढा हिरण्यकक्षान् सुधुरान हिरण्याक्षा न शान् अश्वाननस्य तो जानयमो राजाभितिष्ठति ुलक्षितम्बीरे गमिदृहदयत्री दृष्टच्छन्दागुंसर्वाता यमाहितानोकामश्वम् पुरुषम् जगत् ृप्यति पञ्चर्माणस्व देविनः ते, ते राजन्यः विविच्यन्ते थायन्ति त्वामुपा दे देवासिन् दे प्राह्मणागुश्चापचिच्यति यस्मिन् वृक्षे सुप्रदासे देवैः सञ्जकृते यमः अत्रा न विश्वति पुराणा अनुवेदति विश्वानरेहभिरञ्जुहामि सहस्रमुत्सगो तस्मिन्नेषम्भ्रपितामहम्बरत्सश्चेमाहि परमे व्यामन् अपेदीयत्रयै च नूतनाः स्मै सविदयितानि शरीराणि पृथ्वी मातुरपस्था दधे तेभिर्युज्यन्दामढयाः शुनम् वाहा शुनम् नाराः शुनङ्कृशतलाङ्गलम् शुनम् वरत्रापद्यन्दागुः शुनम शुनमश्रामलिङ्गयशुनाधीरा सुनमस्मा च दत्तम् सुनाधीरा विमाम्बाजङ्गद्विचक्रसुप्तयः ते ञ्जनम् श्रीदे वन्दामहे त्वार्वाचीसुभगे भव यथानः सुभगासति यथा सतितानि शरीराणि पृथिवीमातुरवस्थादधेनादारिष्मदः पारमस्या ज्योतिरा भवनाय ेवता देव्याय स्वसन्ते थोमि पृथिवी तत्परेवम् लोकन्यो अहगोलिशम् एतागुस्थूनाम् पृथिवीषेवायुक्षिणावत्येषा उपस्थेबाधिता सोपायिनास्मै भवतोपवञ्चना माता पुत्रम् यथा सिचाभ्युष्मञ्जमाना पृथिवीः तिष्ठति सहस्रम्यन्ताम् ते गृहासो मुश्चितो विश्वाः स्मै शरणाः सन्तीधाः सन्तु धेनवः किलूद्योस्मै दुहानाविश्वाः सन्तनवस्फुरन्तीः ते मसादने स्वधा निधीयते गृहे अक्षितिर्नामदेवसौ इदम्प्रभरेमद्देवेभ्यो जीवन्तौत्तरम् भरेम तत्त्वारो सोमे तत्त्वं्या संविधानः मात्वा वृक्षो संवाधिष्ठाम्पृथिवित्वम् गच्छास्येधायमराज्ये संवादे मातापृथिवीमही नैव स्वतमोहि गच्छासे राज्ये विराजसि सत्वन ी अपोवागच्छयत चतुर्देशी सुप्रतिष्ठा शरीरे अरमृत्यो ग्रन्था देवयाना चक्षुष्णुदेमानप्रजागौरीरामुदे सन्तोषी कल्पन्तान्ये दिश्मा पृथिव्या स्वा लोके साधया शर्मासि पितरो देवता प्रजापति स्वाधारे तुतया दिवस्त्वा दिशान्त्वा नाकस्य त्वा पृष्ठे प्रत्नस्य त्वा विष्टवे साधयाम्यमुष्य पितरो देवता प्रजापतिस्वासा जयुरया देवतया अपोपवान् पृथिवीपरिकृतः प्रथिकृतश्च पर्यदये देवानाम् कृतभागा इहस्थाने स्वधा निधीयते गृहे तुताङ्गोपाय स्वताञ्जयन्वितरो देवता प्रजापतिस्वासा जय दुरया देवतया अपोपवान्परिकृतप्रेवा दधिभागा मधुभागा इहे गृहे सु ुताक्षरास्वता देवतया एतास्ते स्वधामृताः करमियास्ते धानाः परिकाम्यत्रभिः संविधानोऽषधीनाम् ब्रह्माणयुत्विदुः विधादवे भ्योऽपि धातवेर्वाणागुस्तम्भमाहरिताम्भूयिष्ठानुविरोहतु काशानागुस्तम्भमा हरनक्षतामवहत्य एतस्यै दिश पराभवन्नघायवो यथातेनाभवान् पुनः दर्वाणागुस्तम्भमाहरपितृणामौषधीम् जीवातनुकाण्डमथोफलम् प्रणताहस्य सूतदाहसः शृंवादस्य ीक्षदिवङ्गच्छदिशोर्गच्छदिशो गच्छदिवङ्गीकृस्य जलसङ्कृनानुपूर्वतमानाय तिष्ठा यत्पष्टा सुरत्नेव भवन्ति यथाभिर्यन्ति कृताः यथा न पूर्वमपराजः चेवाधातरायोगोषिकल्पैषाम् न हि ते अग्ने तनुैः कुर्वन्त्यकारमर्त्यः कपिर्पवस्थिते जनम् पुनर्जरायुगोरिव नपनश्चोऽसि चकमग्ने सुद्ध्यारयिम् अपनशोऽसि चकम् नृत्यवेस्वा न्वामे स न इन्द्रैव देवेभ्यो वह्वारणा भव इमे जीवाभिमृते देवभूतिन्नो अद्य प्रतरान्दधानाः मृत्योः पदम् योपयन्तो यदैवद्राघियाय प्रतरान्दधानाः आप्यायमाना प्रतियाधनेन शब्धाः पूजा भव इमम् जीवेभ्य प्ररिति दधामिमानोऽनुजातपरो अर्थमेतम् चितम् जीवन्तु शरदः प्रोचि स्थिरो मृत्युम् दद्महे पर्वतेन विमानारीरविधवा सुपत्नीराञ्जनेन सर्पिशासम् मृशन्ताम् अनश्रवीवा सुषेवाहारोहन्तु जनयो निमग्रे यदाञ्जनन्त्रीकृदम् जातको हिमवदस्परितस्य मूलेनारादीर्जुम्भयामुरी आत्मद्भिनस्योषते पृथिव्यादि एवमिममुद्भिन्दन्तु कीर्त्या ब्रह्मवत्यसेन अजोस्मदखाद्वेषांसि यमोऽषांसि अपनश्वलयम् च लघम् सुक्षेत्रियापसूयाधि यजामहे अपनश्वासु च लघम् प्रयत्नधिष्ठयेषाम् अपनश्वासु च लघम् सहस्वतो विश्वतोयन्ति चूरयः अपनश्रोऽकम् विशोनविश्वय अपनश्रोषु चदघम्व नावयाति पुरुषास्वस्थोषु चदकम् तापप्रवणादि वयतिरबाम अपनश्रोषम्नादका नीवापास्मत्स्यन्दतामघम् अपनश्रोषिदम् आनन्दाय प्रमोदाय पुनरागागस्वान् गृहान् अपनश्रोऽसिचिदघ्वः पुरुषो यत्रेदम् ब्रह्म क्रियते परिधिर्जीवनायकमपनश्रोसु चिदघम् अपश्याम हि वतिमाचरन्तीम् मृदाय जीवाम्नाम् अन्धे नया तमसा प्रावृताधिपा जीमवा जीमवयन्नश्ची प्रियमाना देवी लोको ेवी सतीपि लोकेशी विश्ववारान्तंसदेमारय्यासमुनस्वस्तये ये जीवाय च मृता ये जाताय चिञ्च्याः तेभ्यो घृतस्य धारयितुम् मधुधाराव्यन्दति मातारुत्राणाम् हितामसु नागस्वसादित्यानामृतस्य नाभिः प्रणवचञ्चिकेतुषेजनायमागामना गामदितिम् वधिष्ठा विपदो दुकन्द्रह्यत् ॐ स्रजता सङ्कासि मेदुषा प्रजामायुर्धनम् च ओम् दिश्रान्तिः सुमङ्गलैरियम् वधूरिमा गोसमे सौभाग्यमस्ति दत्त्वाया संविभरे हरिः ओम् इति आरण्यके षष्ठः प्रश्नः समाप्तः